हरिओम श्री पिता अथ श्रीमद वाल्मीकि अयोध्या कांडे एक सप्तम सर्ग तेन या सह भरत रहा विविध स्थानीय सम्लघ्य उज्जीनाया नगरियान उद्या प्रवेश तेना शन शनै आगमनुम आदेश स्वयं रसेन तीव्र वैगात् पुरस्कृत्य सालवनम् अतिक्रम्य अयोध्या निकटे गमनम् ततश्च अयोध्याया दुरवस्थाम् दर्शन् दर्शमग्रे स्वणम् सारथिम् प्रति स्वीयम् दुःखपूर्णमुद्गारम् प्रकटय्य राजभवने प्रवेशश्च स प्राङ्मुख राजगृहात् अभिनिर्याय वीर्यवान् ततः सुलानाम् विद्युजिवान् सन्ति र्यावेक्षतां नदीम् राधिनीम् दूरपारां च पत्यं स्रोत तरङ्गिणीम् शतद्रुमेर श्रीमाम् नदीम् इष्ट कुनन्दनः ऐलधाने नदीं तीर्त्वा प्राप्य चापरपर्वताम् शिलामाकुर्वतीं तीर्त्वा आग्नेयम् शल्यकर्षणम् शुचिर्भूत्वा प्रेक्षमाण शिव अभ्यगात्स महाशैलान् वनं चैत्र रथम् प्रति सरस्वतीं च गङ्गां च युद्धेन प्रतिपद्य च उत्तरान् वीरमत्यानाम् भारुण्डम् प्राविशद्वनम् वेगिनीम् चै कुलिङ्गाख्याम् प्राप्य सन्तिर्णो बलम् आश्वासयत्तदा शीतीकृत्य सुगात्राणि क्वान्तानाश्वास्य वाजिनः तत्र स्नात्वा च पीत्वा च प्रायादाह्य चोदकम् राजपुत्रो महारण्यम् अनभीक्ष्णोपसेवितम् भद्रो भद्रेण यानेन मारुतेकम् विवात्यग भागीरथम् संशोधाने महनदीम् उपायत्रागवर्णम् प्रागुटे विश्रुते पुरे स गङ्गाम् प्रागुटे तीर्त्वा सामायात् कुटिकोष्टिकाम् स्वबलस्ताम् सीत्वा समग धर्मवर्धनं तोरणं दक्षिणाधीन जम्बूप्रस्थम् समागमयत् वरूथम् च ययोरम्यम् मेवने वासं, दश रथत्मजह तमेवरा मुखो यद्यान उज्जीहाय प्रियताियकांप्य भरतो, नस्थायजिज्ञाप्याथ भर वाहिनीं तरी यती स्थित्वा चोत्तानिगाम् नदीम् अन्या नदी च विविधैः पार्वतीयै तुरङ्गमै हस्तिपृष्ठ एकमासाद्य कुटिकामप्यवर्तत सतारे च नरव्याघ्रो लोहित्ये च एकसाले स्थाणुमतिम् विनते गोमतिं नदीम् कलिंगे नगरे प्राप्य सालवनम् दद भरतः क्षिप्रमागच्छत् सुपरि श्रान्तवाहनः वनञ्च समतीत्याशु शर्वर्याम् अरुणोदये अयोध्याम् अनुनाराध्या निर्मिताम् स ददर्श ताम् पुरीम् पुरुष व्याघ्र सत्तराप्रोषितपथि अयोध्याम् अग्रतो दृष्ट्वा सारथिं चेदम् अब्रवीत् एषा प्रतीतामे, प्रतीता मे अयोध्या दृश्यते दूरात् सार्थे पाण्डमृत्तिका यजीभी गुणसम्पन्नै ब्राह्मणै वेदपारयै भूयिष्ठम् वृद्धै राकिरण राजशीवरपालित अयोध्यायाम् पुरा शब्द श्रूयते तु मुलो महाम् समन्ता नरनारणाम् तम् अद्य न शृणोम्यहम् उद्यानामेहि सायान् हि क्रीडितो परतै नरै समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यथा तान्यद्यानूरुदन्तीव परित्यक्तानिकामिभिः पुरी स्वार्थे प्रतिभाति न याने दृश्यन्ते न गजेन्न च वाचिभिः निर्यान्तो वाभियान्तो वा नरमुख्या यथा पुरा उद्यानानि पुरा भान्ति मत्त प्रमोदितानि च जनानाम् मृतिसंयोगेषु अत्यन्त गुणवन्ति च तान्नितान् निर्ध्य पश्यामि निरानन्दानि ह्रस्तपर्णे अनुपतम् विक्रोशद्भिवद्रुमयी नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणम् सरक्ताम् मधुराम् वाणीम् कलम्ब्य हरताम्बहु चन्दन गुरुसम्पृक्तो धूप सम्मूर्छितो मलः पवनम् श्रीमान् किम् नुनाद्य यथा पुरा मृदंग मृदङ्गवीणानाम् कोणसङ्घट्टितः पुनः किम् अद्य शब्दो विरत् सदादीन गति पुरा अनिष्टानि च पापानि सर्वथा कुशलं सूत दुर्लभम् मम बन्धुषु तथा ह्यस्यति हृदयं सीदतीव विषण् श्रान्तहृदये तश्च सम्बलितेन्द्रियः भरते प्रविवेशासु पुरीम् मेक्ष कुपालिताम् द्वारेण वैजयन्तेन प्राविश्रान्तवाहनः द्वास्थे स्थाय विजयम् विजयम् उक्तस्यै सहितो ययौ सत्त्वनेकाग्रहृदयो द्वासम् प्रत्यर्च तं जनम् सूतम् अश्वपते क्लान्तम् अब्दवै तत्र राघव किमहम् त्वरयानेत कारणेन विना अशुभाय शङ्कि हृदयम् शीलं च पततिव मे कृता नो विनाशने आकारान्तानहम् सर्वान् इह पश्यामि सम्भाजन विनानि पुरुषाणि उपलक्षये असंयतकवाटानि श्रीविहीनानि सर्वश बलिकर्मभिहिनानि धूपसम्मोदनेन च अनाशीत कुटुम्बानि प्रभाहीना जनानि च अलक्ष्मीकानि पश्यामि कुटुम्बीभवनान्यहम् अपेतमाल्याय शोभानि असम्मृष्टाय जराणि च देवागाराणि शून्यानि न भान्तिः यथा पुरः देवता च प्रविद्धा च यज्ञगोष्ठा तथैव च माल्यापणेषु राजन्ते नाद्यापण्यानि वा अथवा दृश्यन्ते वोप्यत्य न यथा पूर्वमत्र नष्ट व्यापारयन्त्रितः देवायतन चैत्येषु दीना पक्षे मृगा तथा मरिदम् चाशुपूर्णाक्षम् ध्यान परम् कृशम् सहस्रे पुंसम् च पश्यामि जनम् उत्कण्ठितम्पुरे इत्येवमुक्त्वा भरते सूतम् तम् दीनम् मानसः तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राजय गृहं ययो तां शून्य शृङ्गक वैश्म रक्षाम् रजोरुणे द्वारकवाचयन्त्राम् दृष्ट्वा पुरीमिन्द्र प्रकाशाम् दुःखेन सम्पूर्णतरो बभूवे बभूव पश्यन् मनसो प्रियाणि यान्यन्यदा नाथपुरे बभू अवाक्ष्या दीनमनान हृष्ट महात्मा प्रवेश विचार श्रीमद् रामायणे वल्मीकि अधिकारि अयोध्या काण्डे एक सप्तमर्ग श्री सीता रामचन्द्र